श्रीहरे नमः अद अष्टसप्ततितमोऽध्यायः श्रीशुक उवाच पिशुबलस्य सार्वस्य पौण्ड्रकस्याभिधुर्मतिः परलोकगतानां च कुर्वन् पारोक्षसौहृदम् एकः पधाति संक्रुद्धो गता पाणिप्रकम्पयन् पद्यामि पां महाराज महासत्त्वो व्यदृश्यथ तं तथा यान्थमालोक्य सत्वरः अवप्लुत्य रतात् वेलेव प्रत्यधत् गता मोद्यं यकारुषो मुकुन्दं प्राक् दुर्मदः दिष्ट्या दिष्ट्या भवानद्य मम दृष्टिपथं गतः त्वं मातुलेयो न कृष्ण मित्रद्रुङ्मां जिहांसे अतस्त्वां गतयामन्ध हनिष्ये वज्रकल्पया दह्यानृण्यम् उपै यज्ञं मित्राणामित्रवत्सलः बन्धुरोपर्मरिं हत्वा व्याधिं देहचरं यथा एवं रूक्ष ैस्तु धन्वाक्यै कृष्णम् तोत्रैरिवद्विभं गतया ताडयन्मूर्मि सिंहवद् गतयापि हतोऽप्याजो न च चालयदूद्वह कृष्णोऽपि तमहन् गुर्व्यां कौमोदक्यास्तनान्तरे गता निर्भिन्नहृदय उद्वमन् रुधिरं मुखान् प्रचार्य के सपा धरण्याम्यपदव्यसुः तथक् सूक्ष्मतरं ज्योतिकृष्णम् आविशदद्भुतम् पश्यतां सर्वभूतानां यथा चैद्यवदे नृप विदूरतस्तु तद्भ्राता भ्रातृशोक परिप्लुतः आगच्छदशि उच्छवसंस्तज्जिगांसयां तस्या च पातथ कृष्णश्चक्रेण शूरनेमीम्नां शिरोजगारराजेन्द्र स किरीटं सकुण्डलं एवं सौभं मुनिभिर्सिद्धगन्तर्वैर्विद्याधरमघोरगैः अप्सरोभि पितृगणैर्यक्षैकिन्नरचारणैः उभगीयमानविजयं कुसुमै अभिवर्षितः व्रतश्च वृष्णिप्रवरैर्विवेशालङ्कृतां पुरीं एवं योगेश्वरकृष्णो भगवान् जगदीश्वरः ईयते पशुदृष्टीनां निर्जितो जयतीति सः श्रुत्वा युद्धोत्यमं रामः कुरूणां सखपाण्डवैः तीर्थाभिषेकव्याजेन मध्यस्थप्रययौ किल स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान् सरस्वतीं प्रतिश्रोतं ययो ब्राह्मणः संवृतः प्रतोदगं बिन्दुसरसृत कूपं सुदर्शनम् विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीं यमुनामनुयान्येव गङ्गामनु च भारत जगामनैमिशं यत्र ऋषयक्सत्रमासते तमागतमभिप्रेत्य मुनयो दीर्घसत्रणः अभिनन्त्ययता न्यायम् प्रणम्योत्थाय सार्चयन् कृतासनपरिग्रहः रोमकर्षणमासीनं मकर्षे शिक्षमैक्षतः अप्रत्युत्थायिनं सूतमकृतं ब्रह्मणाञ्जलिम् अध्यासीनं च विभ्रांश्चुको भो त्वीक्षमाधवः कस्मात् साभिमान् विभ्रा नन्द्यास्ते प्रतिलोमजः धर्मपालां तथैवास्मान् वधामर्हति दुर्मतिः ऋषेर्भगवतो भूत्वा शिष्योदीत्य बहूनि सेतिहासपुरानाने। धर्मशास्त्राणि सर्वसहा अधान्तस्याविनीतस्य वृतापण्डितमानिनः न गुणाय भवन्ति स्म नटस्येव अजितात्मनः एतदर्थो हि लोकेऽस्मिन्नवतारो मया कृतः धर्मध्वजिनस्ते हि पादकिनोदिकाः एतावदुक्त्वा भगवान् निवृत्तो सद्वदादपि भाविधात्तं कुशाग्रेण करस्ते नाहनत्प्रभुः आहे दिवादिनः सर्वे मुनयः किन्न मानसाखा वोचो शङ्कर्षणं अधर्मस्ते कृतप्रभो अस्य ब्रह्मासनं दत्तम् अस्माभिर्यधुनन्दन आयुश्चात्माग्लमं तावद् यावत् सत्रं समाप्यते अजानतैवाचरितस्त्वया ब्रह्मवधोयत योगेश्वरस्य भवतो नाम्नायोपि नियामकः पावनं लोकपावनः चरिष्यते भवान् लोकशङ्करो हनन्यचोदितः श्रीभगवानुवाचा करिष्ये वदनिर्वेशं लोकानुग्रहकाम्यया नियम प्रथमे कल्पे यावान् सदुविधीयताम् दीर्घमायोर्भतैतस्य सत्वमिन्द्रियमेव च आशासितं यत्तद्भ्रूत साधये योगमायया ऋषयवूचो अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च सत्यं तथा राम श्रीभगवानुवाचा आत्मा वै पुत्रमुत्पन्न इति वेदानुशासनं तस्मादस्य भवेद्वक्ता आयुरिन्द्रियसत्त्ववान् किं भक्कामो मुनिः श्रेष्ठा भ्रूताहं करवाण्यता अजानतस्त्वभितिं यथा मे चिन्त्यताम्भुताः ऋषयवूचो इल्वलस्य सुतो घोरो बल्वलो नाम दानवः स दूषयति नः सत्र पर्वणि तं पापं जहिदाशार्ह तन्नः शुश्रूषणं परं पूय सुरामांसाभिवर्षिणम् ततश्च भारतं वर्षं परीत्य सुसमाहितः चरित्वा द्वादशमासान् तीर्थस्नायि विशुद्यसे इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्ते बलदेवचरित्रे पल्बलवधोपक्रमो नाम अष्टसप्ततिदमो जीवनस्मरणम् गोविन्दा, गोविन्द सद्गुरुनाथ महराज की जय